अथ द्विनवत्यधिकशततमोऽध्यायः वैशम्पाय न उवाच ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथस वृत्तं यथा येन हृता च कृष्णा कृतवानधिज्यम् लक्ष्यम् च यः पातितवान् असज्जमानश्च ततस्तरस्वी वृतो चक्रामवज्रीव दिते सुतेषु सर्वैश्च देवैर्षिभिश्च जुष्टः कृष्णाप्रगृह्यादिनमन्वयात्तम् नागम् यथा नागवधू प्रहृष्टा अमृष्यमाणेषु नराधिपेषु वृद्धेषु वै तत्र समापतत्सु ततोपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महि प्ररोहम् प्रकालयन्नेव स पार्थिवौघान् वृद्धोऽन्तकः प्राणभृतो यथैव तौ पार्थिवानाम् मिषताम् नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ विभ्राजमानाविव चन्द्रसूर्यौ बाह्याम् पुराद्भार्गवकर्मशालाम् तत्रोपविष्टार्चिरिवानलस्य तेषाम् जनित्रीति मम प्रतर्कः तथाविधैरेव नरप्रवीरैः उपोपविष्टैः स्त्रिभिरग्निकल्पैः तस्यास्ततस्तावभिवाद्यपादौ उक्ता च कृष्णा त्वभिवादयेति स्थिताम् च तत्रैव निवेद्य कृष्णाम् भिक्षा प्रचाराय गता नराग्र्याः तेषाम् तु भिक्षम् प्रतिगृह्य कृष्णा दत्त्वा बलिम् बाह्मणसाच्च कृत्वा ताम् चैव वृद्धाम् परिवेश्यतांश्च नरप्रवीरान् स्वयमप्यभुङ्क्ता सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषाम् चरणोपधाने आसीत् पृथिव्याम् शयनम् च तेषाम्